अथ सप्त चत्वारिंशत् सर्गः सेनापतीन् पञ्चशतु प्रमापितान् हनूमता सानुचरान् सवाहनान् निशम्य राजा समरोद्धतोन्मुखम् समुत्पपाताथ सदस्युदीरितो द्विजाति मुख्यैर्हविषेव पावकः ततो महान् बाल दिवाकर प्रभम् प्रतप्त जाम्बूनद जाल सन्ततम् रथम् समास्थाय ययौ स वीर्यवान् महाहरिम् तम् प्रति नैरृतर्षभः ततस्तपः पताकिनम् रत्नविभूषित ध्वजम् मनोजवाष्टाश्ववरैः सुयोजितम् सुरा सुराधृष्यमसङ्गचारिणम् तटित् प्रभम् व्योमचरम् समाहितम् स गोणमष्टासि निबद्ध बन्धुरम् यथा दिवाकलाभम् रथमा स्थितस्ततः स निर्जगा मामरतुल्य अवस्थितम् विस्मित जात सम्भ्रमम् समैक्षता क्षो बहुमान चक्षुषा स तस्य वेगम् च कपेर्महात्मनः पराक्रमम् चारिषु रावणात्मजः विचारयन् महाबलो युगक्षये सूर्य इवाभिवर्धत स प्रसमीक्ष्य विक्रमम् समाहितात्मा हनुमन्तमाहवे प्रचोदयामासितैः शरैस्त्रिभिः ततः कपिन्तम् प्रसमीक्ष्य गर्वितम् जितश्वमम् शत्रुपराजयोचितम् अवैक्षताक्षः समुदीर्णमान संस बाणपाणिः प्रगृहीत कार्मुकः स हे मनिष्काङ्गतचारु प्रयोर्बभू वा प्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ररास भूमिर्नत च वीर्य संयुगम् चुक्षुभे स तस्य वीरः सु मुखान् पतत्रिणः सुवर्ण पुङ्खान् स विषा निवोरगान् समाधि संयोग विमोक्षतत्त्वविच्छरा नीन् कपि मूर्ध् ताडयत् सतैः शरैर्मूर्ध्नि ततः प्लवङ्गाधिप मन्त्रि सत्तमः समीक्ष्यतम् राज वरात्मजम् ऋणे उदग्र चित्रायुध चित्रा समन्दराग्रस्थ इवांशुमाली विवृद्ध कोपो बल वीर्य संवृतः कुमारमक्षम् सबलम् सवाहनम् ततः स बाणासन शक्र कार्मुकः शर प्रवर्षो युधि राक्षसाम्बुदः शरान्नुमोचाशु बलाहको वृष्टिमिवाचलोत्तमे कपिस्ततस्तम् ऋण चण्ड विक्रमम् प्रवृद्ध प्रसमीक्ष्य संयुगेन नाद स बालभावाद् व्युधि वीर्यदर्पितः तमुत्पतन्तम् समभिद्रवद् बली स राक्षसानाम् प्रवरः प्रतापवान् रथी रथः श्रेष्ठतरः किरञ्छरैः पयोधरः शैलमिवाष्म वायुसेविते शरान्तरे तमात्त बाणासन बाहवोन्मुखम् क्रमास्तृणन्तम् विविधैः शरोत्तमैः हवैक्षताक्षम् बहुमान चक्षुषा जगामचिन्ताम् स च मारुतात्मजः ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् महाभुजः कर्म विशेष तत्त्व पराक्रमम् अबालवद्बाल दिवाकर प्रभः करोत्क्ययम् कर्म महन् महाबलः न चास्य सर्वा हव कर्मशालिनः प्रमापणे मे मतिरत्र जायते अयम् महात्मा च महांश्च पराक्रमोत्साह विवर्धमानसः समीक्षते माम् प्रमुखोऽग्रतस्थितः पराक्रमो ह्यस्य मनाम्सि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः न खल्वयम् नाभिभवेदुपेक्षितः पराक्रमो इति प्रवेगम् तु परस्य तर्कयम् च विधाय वीर्यवान् चकार वेगम् तु महाबलस्तदा च चक्रेऽस्य वधे तदानीं सतस्य तानष्टवरान् महाहयान् समाहितान् भारसहान् विवर्तने जघान वीरः प्रथिवायुसेविते तल प्रहारैः पवनात्मजः कपिः ततस्तलेना स्थलेनाभिहतो महारथः स तस्य पिङ्गाधिप मन्त्रि निर्जितः सभग्ननीडः परिवृत्त कोबरः पपात भूमौ कपिस्ततस्तम् विचरन्तमम् वरे पतत्रिराजानिलसिद्धसेविते समेत्य गतम् मारुत वेग विक्रमः क्रमेण जग्राह च पादयोर्दृढम् सतम् समाविध्य सहस्रशः गृह्य इवाण्डजेश्वरः मुमोच वेगात् विक्रमो महीतले संयति वा स भग्नबाहूरु कटीपयोधरः क्षरन्न शृङ् निर्मथितास्थिलोचनः सम्भिन्न सन्धिः प्रविकीर्ण बन्धनो हतः क्षितौ वायुसुतेन राक्षसः महाकपिर्भूमि तले निपीड्यतम् चकार रक्षोऽधिपतेर्महद्भयम् महर्षिभिश्चक्रचरैः समागतैः समेत्यभूतैश्च स सुरैश्च सेन्द्रैर्भृशजात विस्मयैर्हते कुमारे स कपिर्निरीक्षितः बृहत् गतम् वज्रिसुतोपमम् रणे कुमारमक्षम् शतजोपमे क्षणम् तदेव वीरोभिजगामतोरणम् कृतक्षणः काल इव प्रजाक्षये इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशत् सर्गः